अथ चतुष्पञ्चाशः सर्गः ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यति ददर्शगिरिशृङ्गस्थान् पञ्चवानरपुङ्गवान् तेषाम् मध्ये विशालाक्षी कौशेयङ्कनकप्रभम् उत्तरीयम् वरारोहाशुभाव्याभरणानि च मुमोच यदि रामाय शंसे युरिति भामिनी वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तम् सह भूषणम् सम्भ्रमा त्वदशग्रीवस्तत्कर्म च न बुद्धवान् लिङ्गाक्षास्ताम् विशालाक्षीम् नेत्रैरनिमिषैरिवा विक्रोशन्तीम् तदासीताम् ददृशुर्वानरोत्तमाः स जगाम मैथिलीम् गृह्य रुदतीम् राक्षसेश्वरः ताञ्जहारसु संहृष्टो रावणो मृत्युमात्मनः उत्सङ्गेनैव भुजगीम् तीक्ष्णदं महाविशाम् वनाने सरितः शैलान् सरांसि च विहाय सा स तिमिनक्रनिकेतम् तु वरुणालयमक्षयम् सरिताम् शरणम् गत्वा समतीयाय सागरम् सम्भ्रमात्परिवृत्तोर्मीरुद्धमीनमहोरगः वैदेह्याम् ह्रियमाणायाम् बभूव वरुणालयः अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा एतदन्तो दश अग्रीव इति सिद्धास्तथा ब्रुवन् स तु सीताम् विचेष्टन्तीमङ्केनादाय रावणः प्रविवेशपुरीम् लङ्काम् रूपिणीम् मृत्युमात्मनः सोऽभिगम्यपुरीम् लङ्काम् स्वविभक्तमहापथाम् सो संरोढकक्ष्याम् बहुलाम् स्वमन्तः पुरमाविशत् तत्र तामसितापाङ्गीम् शोकमोहसमन्विताम् निदधे रावणः सीताम् मयो मायामि वासुरीम् अब्रवीच्चदशग्रीवः पिशाचीर्घोरदर्शनाः यथा नैनाम् पुमान् स्त्री वा सीताम् पश्यत्यसम्मतः मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च यद्यदिच्छेत्तदैवा स्यादेयम् अच्छन्दतो यथा या च वक्ष्यति वैदेहीम् वचनम् किञ्चिदप्रियम् अज्ञानाद्यदि वा ज्ञानान्न तस्याजीवितम् प्रियम् तथोक्त्वा राक्षसीस्तास्तु राक्षसेण्रः प्रतापवान् निष्क्रम्यान्तः पुरा तस्मात् किम् चिन्तयन् तदर्शाष्टौ महावीर्यान् राक्षसान् सताम् दृष्ट्वा महावीर्यो वरदानेन मोहितः उवाच तानिदम् वाक्यम् प्रशस्य बलवीर्यतः नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः जलस्थानम् हतस्थानम् भूतम् पूर्वम् खरालयम् तत्रास्यताम् जनस्थाने शून्ये निहतराक्षसे पौरुषम् बलमाश्रित्यत्रा समुत्सृज्य दूरतः बहुसैन्यम् महावीर्यम् जनस्थाने निवेशितम् सदूषणखरम् युद्धे निहतम् रामसायकैः ततः क्रोधो ममा पूर्वो धैर्यस्योपरिवर्धते तच्च वैरम् महारिपोः न हि लप्स्याम्यहम् निद्रा महत्वा संयुगे रिपुम् तम् त्विदानीमहम् हत्वा खरदूषणघातिनम् रामं शर्मोपलप्स्यामि धनम् लब्ध्वेव निर्धनः जनस्थानेऽवसद्भिस्तु भवद्भि राममाश्रिता प्रवृत्तिरुपनेतव्या किम् करोतीति तत्त्वतः अप्रमादाच्च गन्तव्यम् सर्वैरेव निशाचरैः कर्तव्यश्च सदा राघवस्य वधम् प्रति युष्माकम् तु बलम् ज्ञातम् बहुशोरणमूर्धनी अतश्चास्मिञ्जनस्थाने मया यूयम् निवेशिताः ततः प्रियम् वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् विहाय लङ्काम् सहिताः यतो जनस्थानमलक्ष्यदर्शनाः ततस्तु सीतावणस्ु संहृष्ट पिगृह्य मैथि प्रसज्य राण च वैर मुतम बभूव मोहान्मुदी स रावण इशे श्रीमद् रे वाकीए आदि का्ये अकांडे चतुषाश